पशुपतिम् स्थानुलकण्ठम् मापतिम् ya Yeah, yeah. जगन्नाथम् देवेशं वृषभत्वजम् नमामि शिरसदेवम् ta uh, de hey. No yeah. संहार कर्तारमीश्वरम् गुरुम् नमामि शिरसदेवम् किम् नो मृत्यु करिष्यति मार्कण्डेयकृतम् स्तोत्रम् यः व्यम् सङ्कटे कष्टनाशनम् शुचिर्भूत्वा पटे स्तोत्रम् सर्वसिद्धिप्रदायकम् मृत्युञ्जय महादेव प्राहि माम् शरणागतम् जन्म मृत्यु Amen. <laughs>